सप्ततितमोऽध्याय वैशम्पायन ततो ततोऽमृगसहस्राणि हत्वा सबलवाहनः राजा मृगप्रसङ्गेन वनमद्यद्विवेशः एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः समासदत् तच्चाप्यतीप्यनुपतिरुत्तमाश्रमसंयुतम् मनःप्रह्लादजनम् दृष्टिकान्तमतीव च शीतमारुतसंयुक्तम् जगामान्यन्महद्वनम् पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् विपुलम् मधुरारावैर्नादितम् विहगैस्तथा पुंस्कोकिल निनादैश्च झिल्लीकगणनादितम् प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् षट्पदाघूर्णितततलम् लक्ष्म्या परमयायुतम् नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी षट्पदैर्नाप्यपाकीर्णस्तस्मिन् वै काननेभवत् विहगैर्नादितम् पुष्पैरलङ्कृतमतीव च सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम् मनोरमम् महेश्वासो विवेशवनमुत्तमम् मारुता कलितास्तत्र द्रुमाः कुसुमशाखिनः पुष्पवृष्टिम् विचित्रान् तु व्यसृजंस्ते पुनः पुनः पक्षिभिर्मधुरस्वनैः विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः तेषाम् तत्र प्रवालेषु पुष्पभारावनामिषु रुवन्ति मधुरान् षट्पदा मधुलिप्सवः तत्र, तत्र प्रदेशांश्च बहून् कुसुमोत्करमण्डितान् लतागृहपरिक्षिप्तान् मनसः प्रीतिवर्धनान् सम्पश्यन्सुमहातेजा बभूवमुदितस्तदा परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः अशोभतवनं तत्तु महेन्द्रध्वजसन्निभैः सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसाम् गणैः सेवितम् वनमत्यर्धम् मत्तवानरकिन्नरम् सुखः शीतः सुगन्धी च पुष्परेणुवहोनिलः परिक्रामन्वने वृक्षानुपैतीवरि एवम् गुणसमायुक्तम् ददर्शसवनम् नृपः नदीकच्छोद्भवं कान्तमुच्छ्रित ध्वज सन्निभम् प्रेक्षमाणो वनम् तत्तु सुप्रहृष्टविहङ्गमम् आश्रमप्रवरम् रम्यम् ददर्श च मनोरमम् नानावृक्षसमाकीर्णम् प्रत्यपूजयत् यतिर्वालखिल्य वृतम मुनिगणा अग्नगारे बहुषंस्र संस्त्रुत महाकर्बृहदिभ्राज मलिनीम राजन्नदी पुण्या सुखोदका नैकपक्षिगण तपोवन मनोरमा त्र व्याल मृगा प्रीतिम्वापस तम् चाप्रतिरथः श्रीमानाश्रमम् प्रत्यपद्यत देवलोकप्रतीकाशम् सर्वतः सुमनोहरम् नदीञ्चाश्रमसंश्लिष्टाम् पुण्यतोयाम् ददर्शसः सर्वप्राणभृताम् तत्र जननीमिवधिष्ठिताम् स चक्रवाकपुलिनाम् पुष्पफेन प्रवाहिनीम् स पुण्यस्वाध्यायसङ्घृष्टाम् पुलिनैरुपशोभिताम् मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम्